संयत्तासन् हे देवा विनयमुयन्तः अग्नेशोमयोस्ते यस्मिनेः स्तनोः सन्निदश इयम नो भविष्यति यदि नो जेष्यन्तीति हे नाग्नेशो मामताः क्रामुदाम् हे देवा विजित्या अग्नेशो मावन्वये क्षन्न हेग्निमन्वीन्द्रम् दशसोत्सन्नम् तस्य विभक्तेभिस्तेजस्मिने स्तनोरवारुन्धर ते त्वमन्मविन्दन् अनर्भ्यन् तस्य यथाभिज्ञायम् तनोग्रन्ध्रहाभवन् तद्ग्रहाणाम् ग्रहत्वम् यस्यैवम् विदशो ग्रहादिह्यन्ते तस्यत्वैव गृहीताः नाना ज्ञेयम् पुनराधेये कुर्यात् यदनाज्ञेयम् पुनराधेये कुर्यात् यद्ध वदत् अनाज्ञेयम् वारेणत्क्रियते यत्सविषस्तनोऽनपादमिना परिह्यजति भावाज्ञेजावाद्यभागौ स्याताम् अनाद्यभागौ भवद्याहुः यद्भावाज्ञेया वन्वञ्चामिति अग्ने पमानायोत्तरः स्यात् येनाज्ञभागः येन सौम्यः बुधन्मत्या ज्ञेयस्याज्ञभागस्य परोनुभाग्या भवति यथा सुप्तम् बोधयति तादृकेव अग्निण्यक्ताः पत्म्याजा नाम तस्य स्युः एना ज्ञेयकम् सर्वम् भवति एकथा च प्रजननम् वा अग्निः प्रजननमेवोपैतीति कृतयजः सम्भदसम्भार इत्याहो असम्भृत्याः सम्भाराः तयजः कार्यमिति अथो खलु सम्भृत्यादेव सम्भाराः कार्यम् यजः पुनराधेयस्य समृद्ध्यै तेनोपाकुंशु प्रचरति येष्ट्यैववा यः ये यः पुनराधेयः यतोपाकुंशु नष्टमिच्छति तादृशे अवदत् उच्चेष्वत्रगतमुत्सजति यथा नष्टम् वित्त्वा प्राहारमिति तादृशे अवदत् एकथा च कस्मिनेन देवतामुपैदेत्याहुः हैनमेश्वर प्रदहयति है तत्तथा नोपैति प्रजाजानो यादे भवते कुर्यात् यथा पूर्वमाद्यभागो स्यादाः एवम् पत्नी अग्नैश्वानलवप्रजानवत्तनवपैते तदाहो यर्थम् वा एतत् अनाग्नेयम् वा एतत् क्रियत इति नेति ब्रूजात् अज्ञम् प्रथमम् विभक्तेना यजति अज्ञवत्तमम् पत्नैशैयाजानाम् वेनाग्नेयम् तेन समर्थम् क्रियत इति देभावे य मुख्यम् योजिरात्रम् तेनैव सर्वे वाजपेयमपश्यन् ते अन्याः अन्यस्पेनातिष्ठन्त अहमनेन यायिति ब्रवन् आजिमस्य धावामेति तस्मिन्नाजिमधावन् तम् बृहस्पतिदजयत् तेना यजदा सस्वाराज्यमगच्छत् तमिन्द्राः ब्रवीर मा वनेन याजयति एनेन्द्रमयाजयत् दे, स्वाग्रम् पर देवतानाम् पर्ययेत् अगच्छत् स्वाराद्यम् अतिष्ठन्तास्मै ज्येष्ठ्याय एवम् विद्वानवाजपे येन एजते गच्छति स्वाराहाद्यम् अग्रगंसमानानाम् पर्ययेति ष्ठन्तेऽस्मै ज्येष्ठ्याय स वा एषभ्रा मनस्य चैवराज्यस्य च यज्ञः अमम्बा नेतम् वा जपेलय इत्याहुः वाजाप्यो वाजज्ञश्चेतेन देवा ऐप्सन् स्वभावैवा जपेयः यो वै सोमम् वा जपेयम् वेद वाज्येवैनम् भवति आस्य वाजी जायते अन्नम् वैवाजपेयः एवम् वेद अत्यन्नम् आस्यान्नादो जायते ब्रह्मवेजवेगः एवम् वेद अत्यब्रह्मणान्नम् आस्य ब्रह्मा जायते वाग्वैवाजस्य प्रथवः एवम् वेद करोति वाचा वीर्यम् ऐनम् वाचा गच्छति अपि वाचम् वदति प्रजापद्देवेभ्यवरिज्ञान्यादशत् स कन्नाजमेजमधत्ता अन्देवा अब्रुवन् एढवावयज्ञः यद्वाजपेयः अप्रेमनोऽत्रास्ति एतावद्यिते प्रायच्छत् आवा एतावद्युतयो व्याख्यायन्ते यज्ञस्य सर्वत्वाय देवताकामयद्भागाय देवावे ब्रह्मणश्चान्यस्तमनवमाघणन् यद्ब्रह्मणः शवनमासेत् सा जा नाराशज्ञस्य भवत् यदन्नस्य साधुराः तस्माद्गायनश्च मत्तस्य जनप्रतिगृह्यम् निर्प्रतिगृह्णेयात् शवनम् प्रतिगृह्णेयात् सर्वा एतस्य वाचोऽवरुद्धाः यो वाचपेशाजी या पृथिव्यायग्नौ या रसन्दये याज्ञेया बृहजी याक्षयौषधेषु यावनस्पदिषु तस्माद्वादवेत्विजीनः सर्वह्यस्य वाचोऽवरुद्धाः देवावेयधन्यैर्ग्रहेर्यज्ञस्य नामालम्भद तदरिग्राह्यैर्जगिह्यामालम्भर तदरिग्राह्या नाम निग्राह्यत्वम् यदरिग्राह्यागृह्यन्ते यदेवान्यर्ग्रहे यज्ञस्य नावरुन्धे स्वदेवनेस्यावन्धे कञ्चगृह्यन्ते तान्तो यज्ञः यावानेव यज्ञः तवा क्त्वावरुन्धे सर्व इन्द्रा भवन्ति एकथैव यजमानेन्द्रियम् दर्ति सप्तदशप्रायापत्याग्रहादित्यन्ते सप्तदशप्रजापतिः प्रजापदेनाप्यै एकयच्च गृह्णाति एकथैव यजमाने वेद्यम् दधाति सोमग्रहागिश्च सुराग्रहागिश्च गृह्णाति एतद्वै देवानाम् परमान्नम् यत्सोमः एत एतन्मनुष्याणाम् यत्सुराः एत परमेणैवास्मा अन्नाड् देनावमन्नाड्यमबन्धे सोमग्रहान् गृह्णाति ब्रह्मणो वा एतत्तेजः यत्सोमः ब्रह्मण एव तेजसा तेजो यजमाने दधाति सुराग्रहाम् गृह्णाति अन्नस्य वा एतच्छमलम् यत्सुराः अन्नस्यैव शमलेन शमल युजमाना तु वहन्ति सोमग्रहागिश्च सुराग्रहागिश्च गृह्णाति पुगमे मिथुनमेव तिर्गे कौती प्रजननाय आत्मानमे सोमग्रहै शृणोम सुराग्रह्वाजपेजोक्रह्य ओर्व सोमग्रहांते अवरे सुराग्रहांसोमग्रहा साधय पश्चादक्षकं सुरा ग्रहा पापपश्च तस्य मिथित्यै एषवेदमानः यत्स्वामः अन्नकंसुराः स्वामग्रहागश्च सुराग्रहागश्च व्यतिषदि अन्नाद्येनैवेन व्यति सजति संवृजश्चदम् वा भद्रेण पण्टेत्याह अन्नम् वै भद्रम् अन्नाद्येनैवेन कुंसकम् सृजति अन्नस्य वा नेतच्छमनम् यत्सुराः आप्मेव खलु वेशमनम् आत्मनामानेन वेदच्छमनेन व्यनिषजति यत्सोमग्रहागश्च सुराग्रहागश्च व्यनिषजतिशमलेन व्यावर्तयति अस्माद्वारवे निशायीभूतो मेभ्यो लक्षिण्यः मुद्रमणिसोमग्रहैः अममेव ते लोकमभिजयते तत्याम् सुराग्रहैः इममेव तेल्लोकमभिजयते अतिष्ठन्ति तोमग्रहैः यावदेव सत्यम् तेन सूचते बाल्यसुभ्यः सुराग्रहानुते अनुतेनैव विशकुम् सकम् सरति एर्ण्यपात्रम् अथ पूर्णम् एकथा ब्रह्मण उपहरति एकथैव यजमाना यस्तेजोदधादि ब्रह्ममादिना भजन्ति नाग्निष्टोमो मोक्षः न ना षोडशेनादिरात्रः अथ कस्माद्वादपेजे सर्वे यज्ञकृतमोपरुभ्यन्त इति पशफलति ब्रूयाच आग्नेयम् पशुमानफले अग्निष्टोमेव तेनावन्ते ऐन्द्राज्ञेनोक्ष्यम् ऐन्द्रेण षोडशिनस्तोत्रम् सारस्वत्यादिरात्रम् मारुत्याभिषतस्तोत्रम् एतावन्तो वीयज्ञः आत्मशुभिरेवावरुन्धे आत्मानमेव स्तुरात्यज्ञश्लोमेन प्राणापालावेन एंशोडशिनस्तोत्रेण वाचपदिरात्रेण प्रियाम् बृहदस्तोत्रेण इममेव लोकमभिजयत्यग्निष्टोमेन अन्तरिक्षमुखेन स्वर्गम् लोककं षोडशिरस्तोत्रेण देवयानानेन पथारोहत्यरात्रेण ना। नागकं रोहति बृहदस्तोत्रेण प्रेज एवात्मन् धत्ताग्ने पशुनाः वोचोपनमेन्द्राग्ने इन्द्रियमहीन्द्रेण पाचकुंसारस्वत्या उभावेवदेव लोकम् च मनुष्यलोकम् चाभिनयति वा नृत्यावशया सप्तदशप्राजापत्याभे सप्तदशः प्रजापतेः प्रजापतेनाप्यैः श्यामारेकरूपा भवन्ति एवमरे प्रजापतिः समर्थ्ये तान् परियज्ञकतानुच्छ्रजे मर्दयज्ञमधिकम् सन् प्रजापतेः एभ्य एताम् मारुतेम् पशामालफला अ एवेना न समयत् मारुत्या प्रचलिज एताम् साङ् मरुतरेव समयित्वा एतेः प्रजलति यज्ञस्याघाताय एकथापपायुभोति एकदेवत्यादि एते अथोनेकथैव यजमाने वेर्यम् नैवारेण सत्रदारेणतरे प्रचलति एनत्परोडाशाख्ये अथो पशूनामेव शब्द्रमपि दधाति सारस्पत्या प्रमया प्रचलति वाति तस्मात् प्राणानाम् भागोत्तमा अथो प्रजापतामेव यज्ञम् प्रतिष्ठापयति प्रजापति वा नुष्याः वा सर्वाम् वादम् वदन्ति सा विप्रम् जहोति कर्मणः कर्मणः पुरस्तात् कस्तद्वैत्याहुः यद्वा जपेयस्य पौर्वञ्जतपनमिति समित्रप्रसूत एव यथा पूर्वम् करोति समने समने जहोति आक्रमणमेव तत्से पञ्ज्ञमानः लोकस्य समष्ट्ये वाचस्वदर्वाचमध्यस्पदाचिनत्याह वाैदेवानाम् पुरान्नमासीत् वाचमेवास्मानज्ञः स्पदयति इन्द्रस्य वर्गो हिमात्रज्ञैति रथमुहरति विजित्ये वाचस्य न प्रशवे मातरम् महीमित्याह यचैवेयम् यर्चास्यामधि तदेवावरुन्धे अप्सुन्दनमतमप्सुभे जयमित्यस्मान् पन् पोनयति अप्सुवा अश्वस्य तृतीयम् प्रविष्टम् यदप्सुवन् पोलयति यदेवा स्यात्सु प्रविष्टम् तदेवावरुन्धे बहु वा अश्व मेध्यमपगच्छति यदप्सुमन् पोनयति एतावा एतम् देवता अग्रे अश्वमयुञ्जन् आभिदेवेहानेयभक्ति सरस्योद्यित्यैक्तिव्यावृत्यै अपान्नपादासुखे मन्दिरि संवादाष्टिभ्या नैवहम् करोति असौस्तौमेन नाजिम् ना सरिष्यतः विष्णुक्रमान् क्रमते विष्णुवेमभोत्तेवान् लोकानभिजयते वैश्वदेवो वैरथः अङ्कौन्यङ्कार्थ या एव देवतारथे प्रविष्टाः ताभ्यदेव नमस्करोति आत्मनान्ते असमरसम्भाम् वेदाः सविदप्रसवे बृहस्पतिना वाजितावाचमित्याह समितर्प्रसोदगेव ब्रह्म नावाचमुज्जयति देव साहकम् सविदः प्रसवे बृहस्पतिनावाजिदा वरिषिष्ठम् नागकम् वृहेजमित्याह समितर्प्रसोद एव ब्रह्मणा वरिषष्ठन्नागकम् रोहति सात्वाले सर्कर् निहति अतो वा अङ्गिलसौत्सवास्वर्गम् लोकमायन् साक्षादेव यजमानस्वर्गम् लोकमेति आवे आवेष्टयति वद्रो वेदः वज्रेणैव दिशोभिजयति वाजिनामगायते अन्नम् अन्नमेवक्रामते पद्मनस्पते प्राविशत् सैषा वाग्मनस्पतिषु वदति यादृन्दुभौ तस्माद्वन्धभिः सर्वा वाचोनिवदति समाघ्नन्ति परमावा एषा वाच याजुन्दुभौ परम एव वाचावधाम् वाचमवरुन्धे अथो वाच एव वशमानोऽवरुन्धे इन्द्राय वाचम् वदतेन्द्रम् वाचम् जापयतेन्द्रवाचमजयतीत्याह एष वा एतर्हीन्द्रः सप्तदश प्रव्याधानाजिन्धावन्ति सप्तदशज्ञस्त्वात्रम् भवति सप्तदश सप्तदशीयन्ते सप्तदशप्रजापतिः प्रजापतेराज्ञैः अन्वासि सप्तरसि वाच्यशेत्याह अग्निर्वा अर्वा भायः सप्तिः आदित्यो वाजी एताभिरेवास्मै देवताभिर्देवरथञ्जनख्ये पृष्टिवाहिनैजक्ये ष्टिवाहे दे वै देवस्मै जनक्ये वाजिनो वाजम् धाव काष्ठाम् गच्छतेऽत्याह स्वर्गो वै लोकः का काष्ठाः स्वर्गमेव लोकय्यन्ते स्वर्गम् वा एते लोकय्यन्ते याजन्धावन्ते प्राञ्चो धावन्ते प्रागिवहितुवर्गो लोकः अत्र श्रीरामन्त्रेण तस्मान्धे छन्दोभिदेवेना स्वर्गम् लोकम् गमयते प्रमाणेते अस्माच्यवन्ते त्याजन् धावन्ते उदम् चावर्तन्ते अस्मादेव तेन लोकान् नयन्ति प्रदेशस्य प्रसमोजगम् व्यादित्याह अन्नम् वैवाजः अन्नमेवावृन्धे यथा लोकम् वा एष उजयन्ति यथा इन्धावन्ते कृष्णम् कष्टनम् वा दशद्भ्यः प्रयच्छति यमेव देवाजम् लोकमुज्जयन्ति तम् परिक्रिया एकथा ब्रह्मणनुपहरति गृहस्पतिरुदय स नैवाराणाैवाहत्वम् नैवाहस्के एतद्वै परमे परममन्नम् एवारा परमेणैवास्मान्नाम् देरा भवति सप्तदसः प्रजापतिः प्रजापदे भवति ऋमेवास्ति तथा सर्पिष्मायान् भवति मे धत्वाय बालिसत्पत्यो वा एषदेवदया यो वाचपेयेन बालिसत्पत्य एषदयो अश्वान् सरेक्षरः ससृष्टावघ्रापयति यमेव देवायम् लोकमुद्ययन्ति तमेवावरुन्धे अजेजिपदवनस्पते इन्द्रम् वाजम् विवच्चध्वमिदन् दुभे यमेव ते वाजम् लोकमिन्द्रियम् दन्भयमुज्जयन्ति तमेवावन्धे तार्प्यैधमानम् परिधापयति यज्ञा वै तार्प्यम् यज्ञेनैवैनकम् समर्थयति गर्भमयम् परिधापयति पवित्रम् वै दर्भाः पुरात्येवैनम् वाजम् वा एषोपरुत्सते खलु वै वाजः यद्धमयम् परिधापयति वाजस्यावरुध्यै यायोरोहावेद्याः पत्न्या एवैष यज्ञस्याजम्भो ने सप्तदशात्रिरिजोपो भवते सप्तदशः प्रजापते प्रजापतेराद्यैः तौ परश्चतुरश्रद्भवति गोधूमम् चालम् न वा एतेनयवाहाधूमाहाः प्रजापतिः समर्थ्यते अथवा अमुमेवास्मै लोकमन्नवन्तम् करोति वासोभिर्वेष्टयति एधवे यजमानः यद्यूपः सर्वदेवत्यम् वासः सर्वाभिरेवेदम् देवताभिः समर्थयति अथो आक्रमणमेव दत्सयतिनः कुरुते स्वसर्गस्य लोकस्य समष्ट्यै द्वादशमाजपथवीजा निर्होति द्वादशमासाः संवत्सरः संवत्सरमेव प्रीणाति अथो संवत्सरमेवास्मा उपदधाति स्ववर्गस्य लोकस्य समष्ट्यैभिः कल्पैरोहति न भवे पुरुषे प्राणाः नाभिर्दशमे प्राणादेव यथा स्थानम् कल्पयित्वा स्वर्गम् लोकमेदि वेदावद्वे गुरुणस्य स्वम् यावत्प्राणाः यावदेवास्यास्ति लोकमेदि समर्गेवागुणगन्मेत्याह स्वर्गमेव अमृताभूमेत्याह अमृतमभिगो लोकः प्रजाभूमेत्याह प्राजावत्यो वा अयम् लोकः अस्मादेव तेन लोकान्न लोका इति समहम् प्रजयासंमयाः प्रजेत्याः आशितमेवैतामाशास्ते आशुपुटैर्भ्यन्ते अन्नम् वा यम् अन्नाद्येनैवेदकम् समर्थयन्ति ऊषेयर्भ्यन्ति एते साक्षादन्नम् त्रि ऊषाः साक्षादेवेण मन्नार्ग्रेण समर्थयन्ति पुरस्ता प्रत्य पुरस्ताभ्यप्रदेशेन मन्न मद्यते शेषदाघ्नन्ति शेषमद्यते बिग्भ्याघ्नन्ति स्म अन्नाद्यवृन्धते ईश्वरो एष वराषः योयुलोहते हिरण्यमध्यवलोहते अमृतम् वैहिरण्यम् अमृतकंसुवर्गो लोकः अमृत एव तु वर्गे लोके प्रतितिष्ठति शतमानम् भवति षडायः पुरुषः शतेन्द्रियः आयुष्वेवेन्द्रिये प्रतिष्ठति पुष्ट्यैवा एतद्रूपम् यदजान्परिप्रजायतेवरोहति पुष्ट्यामेव प्रजनने प्रतिष्ठति सप्तान्न होमाञ्जुहोति सप्त अन्नानि यावन् देवान्नानि तान् देवावरुन्धे सप्तग्राम्यावोषयः सप्तान्याः वै रामवरुद्ध्यै अन्नस्यान्नस्य जुहोति अन्नस्यान्नस्यावरुध्यै यद्वाजपे याज्यनवरुद्ध्यस्याद्धे न व्यर्थ्येत दे सर्वस्य समवदानि जुहोति अनवरुद्धस्यावरुद्धे औदुम्बरेण श्रुवेण जुहोति ओर्ध्वान्नपुदुम्बरः ओर्ध्वदेवान्नाद्यस्यावरुद्धे देवस्यत्वा च विदः प्रसवरित्याह सविदप्रसूदेवेन ब्रह्मणा देवताभिरभिषिञ्चते अन्नस्यान्नस्याभिषिञ्चते अन्नस्यान्नस्यावरुध्ये पुरस्ता प्रत्यभिषुञ्जने पुरस्ताभ्यप्रत्यते श्रीषदोऽभिषिञ्चते श्रेषदाख्यन्न मद्यते आमुखादन्वश्रावयति मुखत एवास्मा अन्नाद्यम् दधाति अग्नेस्तासाम्राग्रेनाभिडुञ्जामेत्याह एष वा अग्ने सवः तेनैवैनमभिषिञ्जने इन्द्रस्य स्वादाम्राभिणिञ्जामेत्याह इन्द्रियमेवास्मिन् वेतेन दधाते बृहस्पते स्वादाम्राज्यभिणिमेत्याह ब्रह्म वै देवानाम् बृहस्पतेः ब्रह्मदेवेन अभिलिञ्जते स्वामग्रहाकश्चावता नीजानि सर्प्यभ्य उपहरन्ति करोति सुराग्रागश्चानपदा नीजाकमन्नवन्तम् करोति अथो वरैरे सेवाभिचिक्ष्यते कुर्वदेवादिसृतः इन्द्रियस्यावरुद्ध्यै अयर्ताभिप्रागस्वनेऽस्तुमते अयक्तप्रजापतिः प्रजापतेरात्ये भाजपते धर्माभ्यन्दिने अन्नम् वै वाजः अन्नमेवावरुन्ध्ये श्रीविष्णवसीर्भिस्तृतीयसवने यज्ञामै विष्णुः पशवश्विः यज्ञ एव पशुसम्प्रतिष्ठते बृहदन्त्यम् भवति अन्तमेवेनशिलैकमयति दृढतन्त्वेत्याः प्रजा वैदेन प्रजानामेवैतेन सूयते दृढसमित्याः वनस्पतयो वेद्रो वनस्पतीनामेवैतेन भुवनसदमित्याह यदा वेवसे यान् भवति भुवनमगण्यदिवैतमाहुः भुवनमेवेतेन गच्छति अप्सुषदन्ताघृतसदमित्याह अवामेवेतेन घृतस्य सूयते व्योमसदमित्याह यदा वेवसे यान् भवति व्योमागण्यदिवैतमाहुः व्योमेवेतेन गच्छति प्रतिविषदन्तान्तरिक्षतदमित्याह येषामेवैतेन लोकानागुम् सूयते तस्माद्ध्वाजपेनावीहकञ्चन ना प्रत्यवलोहति अपि बहि देवतानागुम् सूयते नाकशतमित्याह यदा वैवशेयान् भवति नागमगन्विजवैतमाहुः नागमेवैतेन गच्छति हे ग्रहाः पञ्चजनी इत्याह पञ्च अपागौरसमुद्वयरमित्याः अपामेवेते रथस्य दोषे सौर्यरस्मिकम् समाभिरमित्या असुर कृत्वा च इन्द्रकम् हत्वा अतुलान् पराभाव्य सोभावास्याम् प्रत्यागच्छत् हे पितरः पौर्वेद्यागच्छन् पितरेण यज्ञागच्छत् तम् देवाः पुनरयाजन्त दे ण्णामहे अथमः पुनर्दास्यामः अस्मभ्यमेव पुनरजदः तस्मात् पितृभ्यः पौर्वेद्यक्रियते यत् पितृभ्यः पौर्वेद्यः करोति पितृभ्यमे मद्दित्यम् निष्क्रिय यजमानः प्रसमते स्वमाय पितृदाय स्प्रधानपैक्याःवाहिमपेचमवरुन्धे प्रमीयमाण आहेशमपीठ इति इन्द्रियम् वै ोमपीठः इन्द्रियमेव स्वामपीचमवरुन्धे एनेन्द्रियेण द्वितीयामभ्यश्चते एतद्वै ब्राह्मणम् पुरावाजश्रवधा विदाहम् ब्रह्मे एवम् वेद अभिद्वितीयाञ्जायामश्नुते अग्निरेकव्यवहनाय स्वधायमयित्याः ह एव वेदनामग्निः हम्प्रीणादिहुजेर्जुहोदे निर्मिदधादि षट्सम्पद्यन्ते षडद्वादवः रो नैव क्रीणादि धाति अस्ति वा हिरक्षऋतुर्नवाः वेदान् मनुष्याः पितरा न प्रविपदे तिस्राहुरेदधाति षट्सम्पद्यन्ते षड्वारितवः वेदेवाः पितरः ऋतोमेव देवान् पिते मनुष्या न प्रपिपदे सगदाच्छिन्नम् परिहृद्भवति सगदि बहि विदलः धर्निदधाति स्त्री इतो लोके विदलः तानेव प्रीणाति पदानावर्धते क्लेशाहि विदलः ओष्मणो व्यापृतरूपाहास्ते ऊष्मभागा हि बिदलः ब्रह्मवादिना वदन्ति प्राश्मेयात् जन्यमन्नमद्यान् प्रभाजकः स्यात् यन्न प्राश्मेयात् अहमि स्यात् पितृभ्याविश्चेत अवध्रेयमेव तन्नेव प्राशितन्नेव प्राशितम् वीरम् भावे पितरः वीरम् वाचलति रसा हरणभागा हि पितलः निर्वदयते उत्तरायुकामचन्दीत पितृणागत्यभिनेदीयः नमस्करोति नमस्कारो, नमस्कारो हि पिता नमावक्पिदलवरसाय नमावक्पिदल सुष्माय नमावक्पिटलो जीवाय नमावक्पिटलो नवमपि पितरोघोराय पितरो नमो वः एतस्मिल्लोके स्थ <laughs> यस्मानिस्तेन ये। येऽस्मिल्लोके महान्तेन एतस्मिन् लोके स्थ यूयन्तेषाम् वसिष्ठा भूयास्तस्मिल्लोके अहम् तेषाम् वसिष्ठो भूया समित्याः वसिष्ठस्वनाम् भवति एवम् विद्वान् पितुर्भ्यः करोति देशमेव ऋष्यानाम् यज्ञः देवानाम् वा इतरे जज्ञाः तेन वा एतत्पित लोकेतरति यत् पितुर्भ्यः करोति भवति भ्यः करोति प्रजापतिस्वादेत्याहुनयते प्रजापदेवेणन्तयने आर्तिमाच्छमानः ओम्